ताम दृष्ट्वा चिन्तयामास शान्तनुः पुरुषर्षभः स्यन्दते किम् त्वयम् नाद्य सरित् ततो निमित्तमन्विच्छन् ददर्श स महामनाः कुमारम् रूप सम्पन्नम् बृहन्तम् चारु दर्शनम् दिव्यमस्त्रम् समावृत्य शरैस्तीक्ष्णैरवस्थितम् ताम् शरैराचिताम् दृष्ट्वा नदीम् गङ्गाम् तदन्तिके अभवद्विस्मितो राजा दृष्ट्वा कर्माति जातमात्रम् पुरा दृष्ट्वा पुत्रम् शान्तनस्तदा नोपलेभे स्मृतिम् धीमान् अभिज्ञातुम् तमात्मजम् स पितरं तम् पितरम् दृष्ट्वा मोहयामास मायया सम्मोह्यतु ततः क्षिप्रम् ततो दृष्ट्वा तत्र राजा स शान्तनोः शङ्कमानः सुतम् दर्शयेतिह दर्शयामास तम् गङ्गा गृहीत्वा दक्षिणे पाणौ तम् कुमारमलङ्कृतम् दृष्टपूर्वामपि सताम् नाभ्य सशान्तनुः गङ्गोवाच यम् पुत्रमष्टमम् राजम्स्त्वम् पुरामय्यविन्दः स चायम् पुरुष व्याघ्र सर्वास्त्रविदनुत्तमः गृहाणेमम् महाराज मया संवर्धितम् सुतम् आदाय पुरुष व्याघ्र नयस्वैनम् विभो वेदानधि जगे साङ्गान् वसिष्ठा देवराज समो युधि सम्मतो नित्यमसुराणाम् च भारत उशना वेद यच्छास्त्रमयम् तद्वेद सर्वशः तथैवाङ्गिरसः पुत्रः सुरासुरनमस्कृतः यद्वेद शास्त्रम् तच्चापि कृत्स्नमस्मिन् प्रतिष्ठितम् तव पुत्रे महाबाहौ साङ्गोपाङ्गम् महात्मनि ऋषिः परैरनाद्धृष्योर्जामदज्ञः प्रतापवान् यदस्त्रम् वेद तदेतस्मिन् प्रतिष्ठितम् महेश्वासमिमम् राजन् राज धर्मार्थ कोविदम् मया दत्तम् नय वैशम्पाय इत्युक्त्वा सा महाभागा तत्रैवान्तरधीयत तयैवम् समनुज्ञातः पुत्रमादाय शान्तनुः भ्राजमानम् यथादित्यमाययौ स्व पुरम् पौरवस्तु पुरीम् गत्वा पुरन्दर पुरोपमाम् सर्वकाम समृद्धार्थम् मेने सोत्मानमात्मना पौरवेषु ततः पुत्रम् राज्यार्थमभयप्रदम् गुणवन्तम् च महायशाः राष्ट्रम् च रञ्जयामास वृत्तेन स तथा सः पुत्रेण रममाणो महीपतिः वर्तया वर्षाणि चत्वार्यमित विक्रमः स कदाचिद्वनम् यातो यमुनामभितो नदीम् महीपतिरनिर्देश्यमाजिघृद्गन्धमुत्तमम् तस्य प्रभवमन्विच्छन् विचार समन्ततः सददर्श तदा कन्याम् दाशानाम् देवरूपिणीम् तामपृच्छत् स दृष्ट्वैव कन्यामसित लोचनाम् कस्य त्वमसि काचासि किञ्च भीरुचिकीर्ष्यसि पितुर्नियोगाद् भद्रम् ते दास राज्ञो महात्मनः रूपमाधुर्य गन्धैस्ताम् संयुक्ताम् देवरूपिणीम् समीक्ष्य राजा दाशेयीम् कामयामास शान्तनुः स गत्वा पितरम् तस्या वरयामास ताम् तदा पर्यपृच्छत्ततस्तस्याः पितरम् सोत्म कारणात् सचतम् प्रत्युवाचेदम् दास राजो मेदेया वराय वर वर्णिनी हृदि यदी माम् धर्मपत्नीम् त्वं मत्तः प्रार्थयसे नघ सत्यवागसि सत्येन समयं कुरुमेततः समयेन प्रदद्याम् ते कन्यामहमिमाम् नृप न हि मे त्वत्समः कश्चित् भविष्यति